अथ त्रयोदशोऽध्यायः स्वदेशप्रत्यागमनम् स्वामिवर्यो विदेशेषु नानास्थाने स्वनारतम् आयसकर्कर्माणि कृत्वा शान्तो भवद्भृषं देसप्ताहमिता पर्याप्तावसरो लब्ध स्वामिना विश्रमाय च तेनाद्य विधातव्यानि बहुकार्याणि भारते यात्राया समये तेन तेषां विषये चिन्तितं लङ्काद्वीपस्य निकटे यदा प्रोतः समागतः विवेकानन्दवर्यस्य चित्रमाह्लादपूरितम् विशिष्टविजयं यत्तु विदेशे स्वामिनार्जितं विदित्वा भारते सर्वे जनाः सन्तुष्टमानसाः वराहनगरे तस्य चतुर्थ्या च विशेषतः विज्ञायस्वामिन सिद्धिम् आनन्दभरिताभृषम् व्याहर्तुं स्वागतं तस्य विविधेषु स्थलेष्वपि सञ्जीकरणं विपुलं तदीयाराधकीकृतं स्वाभिनो व्यक्तिमाहात्म्यं तस्य कर्मच निस्थूलम् उद्यस्य विविधा पत्रिकासु प्रकाशिताः नौकाशयं यदा स्वामी स्यै स समागतः आविर्भूतो महाशब्द सहस्राजनसङ्कुला सत्युतस्वामिवर्यस्तु लङ्काया मुख्यमानुषै नीतससरणिद्वारा शोभायात्राविधेन च उत्थापिता पताकाश्च श्रोत्राणि पथितान्यपि स्वामिनः पुरितक्षिक्तं पुण्यगङ्गाजलं तथा रूपप्रज्वालितो मार्गपार्श्वस्थभवनाग्रतः प्रसारितानि पुष्पाणि पथितस्य पुरो भुवि स्वामिनः स्वीकृतं सर्वम् इदं निशङ्गचेतसा सनातनाय धर्मायार्पितं तदिति तन्मतिः लङ्काया प्रस्थितः स्वामी मद्रासनगरं प्रति बहुत्र मार्गमध्ये स जनवृन्देन पूजितः रामनारायणवस्तस्य हार्द्रसत्कारमाचरत् अमेरिकां प्रयातुं श स्वामिनं प्राग् तदर्थं स्वामिने सर्व सहायं ददावपि प्रत्यागतो यदा स्वामी दिदेशासतुस च आसयत् स्वामिनं भूपो वाजिहीनरथे तथा इतरप्रजया साक माकरसद्वाहनं स चत्वारि सत्पदायामो ज्येस्तम्भोधिरोपितः आदरं प्रकटीकर्तुं स्वामिवर्यं प्रतीर्ष्यपि प्रदत्तं भक्षणं वस्त्रं दरिद्रेभ्य सहस्रश समागमनमुद्दिश्य स्वामिवर्यस्य तत्स्थले स्वामिदर्शनसंलब्धैः रेलमार्गैः कुत्रचिज्जना स्थित्वा यानस्य गमनं किञ्चित् कालं न रोधयन् दृष्ट्वेदं स्वामिवर्यस्तु भावार्द्रशियोऽभवत् जनेभ्य शकलेभ्यः स आशिषं समागतो यदा स्वामि मद्रासनगरं तदा उपागतपराकाष्ठां जनोत्साहो यथा यथ यथार्थतः स्वामिवर्यस्य माहात्म्यम् एतस्मिन् पत्तने खलु आदावङ्गीकृतं चेति स्मर्तव्यं वीथय सकलास्तत्र तोरणालङ्कृतास्तथा अवर्तत स्वामिनाम जनानाम् अधरोषयोः महासम्मेलनं जातं यस्मिन् लोकासहस्रशा उपस्थिता स्वामिवर्यं श्लाह्लादम् अभिवन्दितं विवेकानन्दवर्येण तस्मिन् सम्मेलने कृतम् सश्वभाषणमेकं य उत्तेजकम् अभूत्खलु उत्साहं जनतायास्तु रक्षितुं स उपादिशत् साहाय्यं स भवेन्नूनं भारते निजकर्मणः मद्रासनगरे स्वामी सम्मेलन चतुष्टये अकरोद्भाषणं नानाविषयानधिकृत्य च भारतीयजनताया महत्त्वं बलहीनता एतयोर्विषये स्वामी विस्तरेण निरूपयत भूतकालमनुस्मृत्य वयं श्यामाभिमानिनः आशान्विता भवेमापि भाविनं प्रति शो वदत्